Yeah. <laughs> प्रकटित परब्रह्मतत्त्वं युवान वसिष्ठान्ते बसत् ऋषिगणैरावृतं ब्रह्मनिष्ठैः आचार्येन्द्रम् करकलित च मुद्रमानादरूपम् ूर्तिमीडे विश्वम् दर्पण दृश्यमाननगरी तुल्यम् निजान्तर्गतम् पश्यन्नात्मनिमायया बहिरिवो भूतम् यथा निद्रया यः साक्षात् कुरुते त्मानमेवाद्वयम् तस्मै श्री श्रीगुरुमूर्तये नम इदम् श्रीरक्षिणामूर्तये बीजस्यान्तरिमाकुरो जगदिदम् प्रा निर्विकल्पं पुनः माया कल्पितदेशकालकलना वैचित्र्यचित्रीकृतम् माया विजृम्भयत्यपि महायोगी वयस्वेच्छया तस्मै श्रीगुरुमूर्तयेन्न वैरम् श्रीदक्षिणामूर्तये यस्यैव स्फुरणम् सदात्मकमसत् कल्पातकम् भासते साक्षात्तत्वमसीति वेदव च सा यो बोधयत्याश्रितान् यः साक्षात् करणाद् भवेन्न पुनरावृत्तिः भवम्भोनिरौ तस्मै श्रीगुरुमूर्तये नम इदम् श्रीदक्षिणामूर्तये नानाच्छिद्रगडोदरस्थितमहादीपप्रभास्वरम् ज्ञानम् यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते जानाभीतितमेव न्तमनुभाति एतत् समस्त जगत् तस्मै श्रीगुरुमूर्तये नम इदम् श्री दक्षिणामूर्तये प्राणमपि इन्द्रियाण्यपि चला बुद्धिं च शून्यम् विदुः श्रीबालान्धजटोपमास्तु अहमिति भ्रान्तावृशम्पादिनः मायाशक्तिविलासकल्पित महाव्याव संहारि रे तस्मै श्री गुरुमूर्तये न म इदम् श्रीदक्षिणामूर्तये राकुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादनात् सन्मात्रकरणोपसंहरणतो यो भूत् सुषुप्तः पुगस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते तस्मै श्री न म इदम् श्रीदक्षिणामूर्तये बाल्यादिष्वपि जाग्रदादिषु तथा सर्वासु ववस्थास्वपि व्यावृत्तासु अनुवर्तमानम् अहमित्यन्त म् सदा स्वात्मानम् प्रकटीकरोति भजता यो मुद्रया भद्रया तस्मै श्रीगुरुमूर्तये नम इदम् श्रीदक्षिणामूर्तये विश्वम् पश्यति कार्यकारणतया स्वस्वामी सम्बन्धतः शिष्याचार्यतया तथैवपि त्रिपुत्रादयात्मना भेदतः स्वप्ने जाग्रति वा य एष पुरुषो माया परिभ्रामितः तस्मै श्रीगुरुमूर्तये नम इदम् श्रीदक्षिणामूर्तये भूरम् यस्यैव मूर्त्यष्टकम् नान्यत् विद्यते विमृशता यस्मात् परस्मात् विभोः तस्मै श्रीगुरुमूर्तये न म इदम् श्रीदक्षिणामूर्तये यस्मात् अमुष्ंस्तवे तेनास्य श्रवणात् तदर्थमननात् ध्यानाच्च सङ्कीर्तनात् सर्वात्मत्वमहाविभूतिसहितम् स्यात् ईश्वरत्वम् स्वतः सिद्ध्येतत् पुनरष्टधा परिणतम् च ऐश्वर्यमव्याहतम्